श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध असाष्टादशोऽध्यायः भिन्नभिन्नवर्षो कावर्णन् श्रीसु उवाच तथा च भद्रश्रवाणां धर्मसुतस्तत्कुलपतयः पुरुषा भद्रा सुवर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हसिरसाभिधानां परमेण समाधिना न्निधाप्येदम् अभिघ्नन्त उपधावन्ति भद्रस्रवस उचुः ॐ नमो भगवते धर्माय आत्माविशोधनाय नमेति नहो विचित्रं भगवद्विचेष्टितं ग्रन्थं जनोऽयं भिमिषन्न पश्यरे धायन्न सद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजेवि वदन्ति विश्वं कवि अस्मनस्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः तथापि मुह्यन्ति तवाजमायया सुविस्मितं कृत्यमजं नतोऽस्मितं विश्वोदभवस्थाननं विरोधकर्म ते यकर्तुरङ्गीकृतमप्यपावितः युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः जुगान्ते वेदाञ्जुगान्ते तमसा तिरस्कृतान् रसातलाद्यो नितुरङ्गविग्रह प्रत्यादेवैकवेऽभियाचते तस्मै नमस्ते वि तथेहितायैति हरिवर्षे चापि भगवान रूपे भगवान् नरहरिरूपेणास्ति तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ति तद्दयितं रूपं महापुरुषकुलभाजनो महाभागवतो दैत्यदानव कुलतीर्थीकरणशीलाचरितः प्रह्लादोऽव्यवधानारण्यभक्तियोगेन सह तद्वर्षपुरुषैरूपास्ते इदं चोदाहरति ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भवभज्रनखवज्रदंश कर्माशयान रन्धय रन्धय तमोग्रसग्रस ॐ स्वाहा अभयम् अभयमात्मनि भूयिष्ठा ॐ सौं स्वस्यस्तु विश्वस्य खल प्रसीदतां ध्यायन्तु भूतानि शिवं मिथोधियां मनश्च भद्रं भजता धतोक्षते आवेशतां नो मतिरप्यहेतुकी मागारदारात्मजं वित्तबन्धुतो शृङ्गो यदि स्याद्भगवत्प्रियेषु न यप्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्यदूरान्नं तें तथेन्द्रियप्रियः यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं भुः संस्पर्शतां हरत्यजोऽन्तस्तुतिभिर्गतो गजं को वै न सेवेत मुकुन्दविक्रमम् यस्यास्ति भक्तिर्भगवत्य किञ्चन सर्वैर्गुणैस्तत्र समासते सुराः धरावभक्तस्य कुतो महद्गुणा मनोरथे नासति धावतो बहिः हरिः साक्षाद्भगवान् हेत्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसां दम्पतीनां तस्माद्रजो रागविषादमन्यो मानस्पृहाभयं दैन्याभिमूलं हेत्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजता कुतो भयमिति केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षयां प्रजापतेर्दुहित्रीणां पुत्राणां तद्वर्षपतीनां पुरुषायुषा होराद्रपरिसङ्ख्यानानां यासां गर्भामहापुरुषमहास्रतेजसोद्वेजितं मनसाम् विध्वस्ताव्यसवसंवत्सरां ते विनिपतन्ति अतीवसूलितगतिविलासविलसतं रुचिरं हासलोषावलोकलीलया किञ्चिदुत्तमम् भित् सुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते तद्भगवतो मायामयं रूपं परंसमाधिज्योगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापते दुहित्रिभिरुपेताः सूचतद्भर्त्रीभिरूपास्ते इदं चोदाहरति ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते ऋषिकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चेत्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाच्छन्दो मयायान्नमयायामृतंमयाय सर्वमयाय सहसे ओजसे बलाय कांताय कामाय नमस्ते उभयत्र भूयात् स्योवतैं वृते स्वाशिषिकेश्वरं शतो ह्याराध्यलोके पतिमासा सतेऽन्यं तासां न ते वै परिपान्त्यपत्यं प्रियं धनायुंसीयतो स्वतन्त्राः स वै पतिः स्याद्गुतो भयस्वयं समन्ततपाति भयातुरं जनम् स एक एवेतरथा मिथोभयं नैवात्मलाभादधि मन्यते परं या तस्य ते पादसरोरुहार्हणं निकामये सा किलकामलं पटा तदेव राशेप्सितं विप्सितोऽर्चितो यद्भग्नियाञ्चा भगवद् प्रतप्